ततस्तस्याम्बुदाभस्य भीमो रोषातु रक्षसः उत्क्षिप्या भ्राम यद्देहं तूर्णं शतगुणं तदा भीम उवाच वृथा मांसैर्वृथा पुष्टो वृथा वृद्धो वृथा मतिः यथावनमकण्टकं न भक्षयिष्यसि राक्षसा अर्जुन उवाच यदि वा मन्यसे भारं त्वमिमं राक्षसं युधि करोमि तव साहाय्यं शीघ्रमेश निपात्यताम् अथवाप्यहमेवैनं हनिष्यामि मृकोदरा कृतकर्मा परिश्रान्तः साधुतावदु पारमा वैशंपायन उवाच तस्य तद्वतनं श्रुत्वा भीमसेनोत्यमर्षणः निष्पिश्य इनं बलाद् भूमौ पशुमारममारयत् समार्यमाणो भीमेन ननादविपुलं स्वनम् पूरयम्स्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः बाहुभ्यां योत्रयित्वा तम् बलवान् पाण्डुनन्दनः मध्ये भन्त्वा महाबाहुः हर्षयामास पाण्डवान् हिडिम्बम् निहतं दृष्ट्वा संहृष्टास्तेतरस्विनः अपो जयन्नरव्याघ्रम् भीमसेनमरिन्दमम् अभिपूज्य भीमं भीमपराक्रमं पुनरेवार्जुनो वाक्यम् उवाचेदमृकोदरं नदूरं दूरं नगरं मन्ये वनादस्मादहं विभो शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः ततः इति श्रीमहाभारते आदिपर्वणि हिडिम्बवधपर्वणि हिडिम्बवधे त्रिपञ्चाशदधिकशततमोऽध्यायः